मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टीन् फाल्गुनशुक्लचतुर्थी चरित्रवर्णनं श्रीगणेशाय नमः दशरथ उवाच अधुना ब्रूहि मे विप्रमाहात्म्यं फाल्गुनोद्भवं पुण्यं शुक्लचतुर्थीजं न दृप्यामि कथामृदाद वसिष्ठ उवाच फाल्गुने शुक्लपक्षे या वरदा भवेद् तस्या माहात्म्यमाद्यं ते ब्रवीम्यहं मालवे नगरं ख्यातं सर्वशोभासमन्वितं भारकं सर्वधर्मज्ञायैलोकैस्तत्सङ्कुलं बभौ तत्र हेमाङ्गदो राजा चकार चकारराज्यमुत्तमं जित्वा भूमण्डलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः प्रधानैराजभिस्सर्वैर्मान्यो भूत् सर्वसम्मतः पुत्रायस्तेजो युधयुर्युक्तो द्विजदेवातिथिप्रियः तदोकस्मात् स राजर्षिशूलयुक्तो बभूवः उदरे शस्त्रसम्पादैरिवयुक्तो रुरोधः नानायत्ना कृदा सर्वैः शूलनाशार्थमादराद मन्त्रैश्चौषधिभिशूलं पिपीडादितरां नृपम् तीर्थदेवाधिकं सोऽ बिब्राह्मणैर्वेदपारगैः अस्येवद तदस्तस्य शूलमुग्रं बभूव वै तदशूलेन पीडिदो दारुणेन वै विषादिभिर्मतिं चक्रे देहत्यागे विशेषतः महायोगी। पर्वदसहसा गतः तस्य गेहे तं ननाम स राजा दुःखसंयुतः ब्राह्मणै पूजयामास तं सर्वज्ञं विशेषतः उवाच दुःखसंयुक्तशूलपीडां नियम्य सः उवाच धन्यं मे जन्मदानादिपिदामादाकुलादिकम् स्वधर्मपुत्रधारादित्वदङ्घ्रियुगदर्शनाद ततोदिपीडया युक्तपपादधरणीतले रुरोददारुणं दा राजा तद्दृष्ट्वा विस्मितो द्विजः पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् सचिवा ऊचुः शूलमुग्रं बभूवास्यानिवार्यं तौषधादिभिः तीर्थमन्त्रप्रयोगैश्च नानायत्नैर्महामुने श्रुत्वा तेषां वचक्रूरं पर्वतो ध्यानमास्थितः ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाचः पर्वत उवाच शृणुराजंस्त्वदीये यद्राज्ये पाबं सुदारुणं वरुददे त्वं ततः पूर्णशूलयुक्तोऽसि साम्प्रतं चतुर्ध्यास्ते मुख्यं राज्ये नष्टं विशेषतः तेन दोषसमूहेन स जनस्त्वं पर्वतस्य वच श्रुत्वा राजा तं हर्षितो वदध कृत्वा करपुडं भूप विनयावनतो वचः हेमाङ्गद उवाच कीदृशं तद्व्रतं स्वामिन् केन सञ्चरितं पुरा कस्यैव पूजनं तत्र वदमे सर्वमञ्जसा पर्वत उवाच सर्वसिद्धिकरं राजन्व्रतं गणेश्वरं परं चतुर्नां पुरुषार्थानां साधनं सर्वसम्मतम् ततश्चतुर्थीमाहात्म्यं कथयामासविस्तराद तेन संहर्षितो राजा श्रुत्वादं पुनरब्रवीद कीदृशोऽयं गणाधीशो वद स्वरूपकम् ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः पर्वत उवाच पुरावृत्तं गणेशस्य चरित्रं यन्मया श्रुतं तदेव कथयिष्यामि निद्राकात् सर्वदं परम् अहं तपसि सन्धिष्ठन्नानायत्नपरायणः संव्याप्तं तपसात् सर्वम् मदीये न महा मदे इन्द्रप्रक्षुभिदोऽत्यन्तं काममप्सरसायुधं प्रेषयामासविघ्नार्थं तपसो मे मदान्विदः तदसोऽपि भयोद्विघ्नकामोद्दाकसमन्विदः तपःस त्यजसा सत्यं पलायतसस सैनिकः तदोऽहं तपसा युक्तोऽन्तर्निष्टश्चाभवं नृप तपस्त्यक्त्वा महाबाहो शमदमपरायणः नानाभूमिपरो जातस्ततोदिभाग्यगौरवाद निदाक सहसा तत्रागदोऽवधूतमार्गविद दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः अपूजयं विधानेन ततस्तं स्म वदामि वै धन्यो मे जनको माता तपो धन्यं जनुस्तथा ब्रह्म भूयप्रदस्यापि पादपद्मस्य दर्शनाद अधुना वदमेनाथ योगं शान्तिप्रदायकं येनाहं योगि वन्द्यश्च भवेयं साधनान्मुने वसिष्ठ उवाच इति पृष्टो महातेजा निदाखस्तमुवाचः पर्वतं तपसा शुद्धं प्रहृष्टेनान्दरात्मना निदाख उवाच शृणुवृत्तम् मदीयं ते कथयामि पुरातनं येन योगीन्द्रवन्त्यश्च जातोऽहं योगसेवया अहं योगार्थमत्यन्तं योगभूमिपरायणः असाधयं महायोगं ब्रह्म भूयकरं परं ततो ते कं सदानन्दे समस्वानन्दके भवम् संस्थितस्तत्र भो राजन् दृष्टमानन्दरूपकं द्वन्द्वै सर्वत्र संव्याप्तं द्वन्द्वे तद्योगरूपि च तेन शान्तिर्गदा मे भूततो विष्णुं गदोभवं तं प्रणम्य महात्मानमवधं वदशान्दिदम् योगं विष्णो महायोगिन्येन शान्तो भवाम्यहं विष्णुरुवाच योगशान्तिप्रदं पादगणेशं विद्धिमानद तं ज्ञात्वा शान्तिमापन्ना वयं सर्वे च योगिनः मनोवाणीमयं विद्धि गकारं च तयोः परं मनोवाणी विहीनं तं नकारं योगिसम्मदम् तयोः स्वामी गणाधीशस्तम्भजस्व विधानदः तदशान्तिं महाभागलभसे लभसे नात्रसंशयः यवमुक्त्वा महाविष्णुर्विररामस्वयं तदः तं प्रणम्य वने परोभवं एकाक्षरस्य परो भवं एकाक्षरस्य मन्द्रस्य गतेषु दशवर्षेषु जपेन सहसागतः ध्यानस्तं ध्यानस्थं जगाद वृणुवाञ्छितं तदोऽहं तं प्रणम्यैवा पूज्य स्तोदुं प्रचक्रमे स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः योगशान्तिं गणेशानु दत्त्वा मे महा तदादि तदाधिगणपत्योऽहं जादस्तं प्रभजामि वै भजस्व गणराज्यं त्वमतस्तं शान्दिदम् परम् यवमुक्त्वा निदाघौ तस्मै महामनुम् एकाक्षरं विधानेन ततः सौन्दर्हितो भवद पर्वद उवाच भजामि गणनाथं स्म तदोऽहं नित्यमादराद तेनोक्तविधिना राजन् शान्तिं प्राप्तो विशेषतः अपूजयं हि गणपं ततो नित्यं तपोन्विदः तदो मां दर्शयामास रूपं योगमयं प्रभुः स्तुदस्सम्पूजितो मे सभक्तिं दत्त्वा महामदे स्वानन्दे सगदो राजन्भक्तानन्दविवर्धनः एव मुक्त्वा पर्वतस्तं ददौ मन्द्रं दशाक्षरं गणेशस्य महाराज ततश्चान्दर्हितो भवतः राजा फाल्गुने भूप शुक्लस्त च दुर्धि संज्ञकं परं तदो राज्ञापि सर्वत्र कृतो घोषो जनैर्नृप शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां धावसंयुतैः तदशूलव्यधाहीनो बभूवे राजसत्तमः जना दुखीना जनसर्वे जा्रत प्रभावत पुत्रपौत्रादी संयुक्ता योगगावर्जिता धनधान्यादिस मुमु दुर्भूमिमंडल तद हेमादो राजा भक्त्या भक्त विघ्नेशमुतम उपचारायः प्रभूज्यापि सिषेवे नित्यमादराद पुत्रं राज्ये निधाय सौशस्त्रीकः शान्तिसंयुधः गणेशं सर्वभावे नान्दे च तन्मयतामयाद क्रमेण भूमिसंस्थाये नरा स्वानन्दगा बभुः भोगान्विशेषेण व्रतपुण्यप्रभावतः चान्यत्वं माहात्म्यं व्रतसंश्रितं धाकरेणकरे विप्रो वसद्वैजातिदूषणः बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदं हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् परस्त्रीलम्बडो नित्यं यौवने सोदिदारुणः पतिव्रता खढेनैव व्रतभ्रष्टाश्चकारः शस्त्रधारी वने गत्वा जन्तून् जघ्नेश नित्यशः द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिया एवं पापसमाचारो वने कस्मिन् दिने स्थितः वैश्यं दृष्ट्वा च दं हन्तुं मधावत् स वधप्रियः पलतः वैश्यत्पुत्रेण नादस्तत्र कृतो महान् तं श्रुत्वा मार्गसंस्तश्च चत्वारः पुरुषाययुः ते धृत्वा ताडया ताडयामासुरुल्बणम् राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः राज्ञाज्ञप्ताश्च तं तत्रा ताडयं स्ते द्विजाधमं नाविदन्ब्राह्मणं राजं चिक्षिपुर्निगडे द्विजं ततः बधनस्तत्र निराहारो बभूवेश नराधमः पञ्चम्यां तं मृदं ज्ञात्वा ततो गाणे शकायययुः दूधानेतुं द्विजं तत्र व्रतपुण्यप्रभावतः स स्वानन्दपुरे निदो गाणपत्यैर्नृपात्मज तत्र विघ्नेश्वरं दृष्ट्वा भूदो बभूवः एवं नानाजनाश्चैव भूदा बभूविरे तेषां चरित्रकं सर्वं वक्तुं तेन प्रशक्यदे फाल्गुने वरदायास्तु यास्तु चरित्रं यशृणोति पठे द्वा तस्य सर्वान् कामान् ददाति हि तत्सदिति श्रीमदान्ध्ये पुराणो वनिषदि श्रीमन्म महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनशुक्लचतुर्थी चरित्रवर्णनं नाम त्रयोदशोऽध्यायः